प्रश्नयजुर्वेदे क्रमपाठे तृतीयकाण्डे पञ्चमः प्रश्नः प्रारम्भः पूर्णापश्चात् पश्चादुत तपूर्णा पूर्णा पुरस्तात् पुरस्तादुत् मध्यतः तध्यतः पूर्णमासी पौर्णमासीजिगाय पूर्णमासीति पूर्णमासीजिगायेति जिगाय तस्याम् देवाः देवाधि अधिसम्वसन्तः सम्वसन्त उत्तमे सम्वसन्त इति सम्वसन्तः उत्तमे नाके उत्तमैत्युत्तमे नाक इह इहमादयन्ताम् मादयन्तामिति मादयन्ताम् यत् ते ते देवाः देवादधुः ददतुर्भागधेयम् भागधेयममावास्ये भागधेयमिति भागाधेयम् अमावास्ये सम्वसन्तः अमावास्ये इत्यमावास्ये संवसन्तो महित्वा संवसन्त इति संवसन्तः महित्वेति महित्वा सा नः नो यज्ञम् यज्ञम् पिबृहिबृहि वाश्वारे विश्ववारेम् विश्ववार निवेशनी सङ्गमनि निवेशनीति निवेशनी सङ्गमनि वसूनाम् सङ्गमनीति सङ्गमनि वसूनाम् विश्वाः विश्वारूपाणि रूपाणि वसूनि वसून्यावेशयन्ती आवेशयन्तीत्या आवेशयन्ति सहस्रपोषकम् सुभगाः सहस्रपोषमिति सहस्रापोषम् सुभगा नला सुभगेति सुभगाः नलाना सा सा नः न आगन् वर्चसा संविदाना संविधानेऽपि संविदाना अग्निशोमौ अग्निषोमा वित्यग्नी सोमौ प्रथमौ वीर्येण वीर्येण वसून् वसूमन् रुद्रान् रुद्राणादित्यान् आदित्यानिह इह जिन्वतम् जिन्वतमिति जिन्वतम् माध्यगुम् हि हि पौर्णमासम् पौर्णमासम् द्विषेथाहम् पौर्णमासिरिति पौर्णामासम् द्विषेथाम् ब्रह्मणा ब्रह्मणा वृद्धौ वृद्धौ सुकृतेन सातौ सुकृतेनेति सुकृतेन सातावथ अथा अस्मभ्यम् अस्मभ्यम् सहवीराम् अस्मभ्यमित्यस्माभ्यम् सह वीरागम् रयिम् सहवीरामिति सह वीराम् रयन्नियच्छतम् यच्छतमिति यच्छतम् आदित्याश्च अदधतते ते दर्शपूर्णमासौ दर्शपूर्णमासौ दर्शपूर्णमासादिति दर्शपूर्णमासौ प्रईप्सन् ऐप्सन् तेषाम् तेषामङ्गिरसाम् अङ्गिरसाम् निरुक्तम् निरुक्तमम् हविः निरुक्तमितिनिरासीत् आसीदथ अथादित्याः आदित्या एतौ एतौ होमौ होमावपश्यन् अपश्यन्तौ तावजुहवुः अजुहवुस्ततः ततो वै वै ते ते दर्शपूर्णमासौ दर्शपूर्णमासौ पूर्वेः दर्शपूर्णमासावितिदर्शापूर्णमासौ पूर्व आ आलभन्त अलभन्तदर्शपूर्णमासौ दर्शपूर्णमासावालभमानः दर्शपूर्णमासावितिदर्शा पूर्णमासौ आलभमान एतौ आलभमान इत्या आलभमानः एतौ होमौ होमौ पुरस्तात् पुरस्ताज्जुहुयात् जुयात्साक्षात् साक्षादेव साक्षादिति साक्षात् एव दर्शपूर्णमासौ दर्शपूर्णमासा वा दर्शपूर्णमासाविदिदर्शपूर्णमासौ आलभते लभते ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिनैति ब्रह्मवादिनः वदन्ति सः स तु त्वयि वै दर्शपूर्णमासौ दर्शपूर्णमासा वा दर्शपूर्णमासाविदिदर्शपूर्णमासौ आलभेत लभेतयः येनयोः एलयोरनुगोमम् अनुगोमम् अनुलोममित्यनौ लोमम् च प्रतिलोमम् च प्रतिलोममिति विद्यादिति इत्यमावास्यायाः मावास्याया ऊर्ध्वम् मावास्याया इत्यमावास्यायाः ऊर्ध्वम् तत् तदनुलोमम् अनुलोमम् पौर्णमास्यै अनुलोममित्यनो लोमम् पौर्णमास्यैप्रतीचीनम् पौर्णमास्या इति पौर्णामास्यै प्रतीचीनम् तत् तत्प्रतिलोमम् प्रतिलोममिलिप्रतिलोमम् यत्पौर्णमासीम् और्णमासीम् पूर्वाहम् पौर्णमासीमिति पौर्णमासीम् पूर्वामालभेत आलभेत प्रतिलोमम् आलभेतेत्या आलभेत प्रतिलोममेनौ प्रतिलोममिलि प्रतिलोमम् एनावा आलभेत लभेतामम् अमुमपक्षीयमाणम् अपक्षीयमाणमनु अपक्षीयमाणमित्यपाक्षीयमाणम् अन्वप अपक्षीयेत क्षीयेत सारस्वतौ सारस्वतौ होमौ होमौ पुरस्ताद् पुरस्ताज्जुयाद् जुहयादुमावास्यावास्या वै मावास्येत्यमावास्याः वै सरस्वती सरस्वत्यनुलोमम् अनुलोममेव अनुलोममित्यनो लोमम् एवै नौ एना वा आलभते लभते अममाप्यायमानम् आप्यायमानमनु अन्वा ताप्यायते प्यायता आज्ञावैष्णवम् आज्ञा वैष्णवमेकादशकपालम् आज्ञा वैष्णवमित्याज्ञावैष्णवम् एकादशकपालम् पुरस्ताहात् एकादशकपालमित्येकादशाकपालम् पुरस्तान्निः निर्वपेत् पपेत् सरस्वत्यै सरस्वत्यै चरुम् चरकुम् सरस्वते सरस्वते द्वादशकपालम् द्वादशकपालम् यत् द्वादशकपालमिति द्वादशाकपालम् यदाज्ञेयः आज्ञेयो भवति भवत्यग्निः यज्ञर्वै वै यज्ञमुखम् यज्ञमुखम् यज्ञमुखम् यज्ञमुखमिति यज्ञामुखम् यज्ञमुखमेव यज्ञमुखमिति यज्ञामुखम् एवद्धिम् वृद्धिम् पुरस्तात् पुरस्ताद्धत्ते धत्तेत् यद्वै विष्णवः वैष्णवो भवति भवति यज्ञः यज्ञो वै वै विष्णोः विष्णुर्यज्ञम् यज्ञमेव एवारभ्य आरभ्य प्र आरभ्येत्या आरभ्य सरस्वत्यी चतुः चतुर्भवति भवति सरस्वते सरस्वते द्वादशकपालः द्वादशकपालो मावास्याः द्वादशकपाल इति द्वादशाकपालः मावास्या वै मावास्येत्यमावास्याः वै सरस्वती सरस्वती पूर्णमासः पूर्णमासः सरस्वान् पूर्णमास इति पूर्णामासः सरस्वान्तौ तावेव एव साक्षात् साक्षादा साक्षादिति साक्षात् आरभते नपथ रुध्नोति रुध्नोत्याभ्याम् आभ्याम् द्वादशकपालः द्वादशकपालः सरस्वते द्वादशकपाल इति द्वादशाकपालः सरस्वते भवति भवति मिथुनत्वाय मिथिनत्वाय प्रजा आत्यै मिथुनत्वाय इति मिथुनात्वाय प्रजा आत्यै मिथुनौ प्रजा आत्याय दक्षिणा दक्षिणा समृद्धि समृद्ध्या यदि समृद्धिः विषयो वा इन्द्रम् इन्द्रम् प्रत्यक्षम् प्रत्यक्षम् न प्रत्यक्षमिधिप्रति अक्षम् नापश्यन् अपश्यन्तम् तम् वसिष्ठः वसिष्ठः प्रत्यक्षम् प्रत्यक्षमपश्यत् प्रत्यक्षमिधिप्रति अक्षम् अपश्यत् सः सोऽब्रवीत् अब्रवीत् ब्राह्मणम् ब्राह्मणम् ते ते वक्ष्यामि यथा यथा त्वत्पुरोहिताः प्रजाः त्वत्पुरोहिता इति त्वत् पुरोहिताः प्रजाः प्रतिनिश्यन्ते प्रजा इति प्राजाः प्रजयिष्यन्वेऽथ प्रजयिष्यन्देति प्राजनिष्यन्ते अथ मा नेतरेभ्यः इतरेभ्य ऋषिभ्यः ऋषिभ्यो मा ऋषिभ्यः ऋषिभ्यः माप्रवोचः तस्मा एतान् एतान् सोमभागान् सोमभागान् अब्रवीत् स्तोमभागानिति स्तोमाभागान् ततो वसिष्ठपुरोहिताः वसिष्ठपुरोहिताः प्रजाः वसिष्ठपुरोहिताः इति वसिष्ठाः पुरोहिताः प्रजाःप्रजा इति प्राजाः प्रा प्रा प्रा प्राजायन्त अजायन्त तस्मात् तस्माद्वासिष्ठः थमाद वासिष्ठो ब्रह्मा ब्रह्माकार्यः कार्यः प्रैव एव जायते जायते रश्मिः रश्मिरसि असि क्षयाय क्षयायित्वा का था क्षयम् था क्षयम् जिन्व था आह देवाः देवा वै वै क्षयः क्षयो देवेभ्यः देवेभ्य एव यज्ञम् यज्ञम् प्राह आह प्रेतिः प्रेतिरसि प्रेतिरिति प्रायतिः असि धर्माय धर्माय त्वा त्वाधर्मम् धर्मम् जिन्व जिन्वेति इत्याह आह मनुष्याः मनुष्या वै वै धर्मः धर्मो मनुष्येयेभ्यः मनुष्येयेभ्य एव एव यज्ञम् यज्ञम् प्र प्राह आहानुवितिः अन्विचिरसि अन्विजिरित्यनो विः असि दिवे दिवे त्वाह त्वादिवम् दिवम् जिन्व जिन्वेति इत्याह आहैभ्यः एभ्य एव एव लोकेभ्यः लोकेभ्यो यज्ञम् यज्ञम् प्रा प्राह आहविष्टम्भः इष्टम्भोऽसि इष्टम्भ इति वैस्तम्भः असि वृष्ट्यै वृष्ट्यै त्वा त्वा वृष्टिम् वृष्टिम् जिन्वेति इत्याह आह वृष्टिम् वृष्टिमेव एवाव अपरुन्धे रुन्धे प्रवा प्रवासि प्रवेति प्रवा अस अस्यनुवा अनुवासि अनुवेद्यनुवा असीति इत्याह आह्व्यथनत्वायनत्वायशिक् व्यथनत्वायेति मिथनात्वाय वशिकसि असि वसुभ्यः वसुभ्यस्त्वा वसुभ्य इति वस त्वावसून् वसून् जिन्व जिन्वेति इत्याह आहाष्टौ अष्टौ वसवः असवलेकादश एकादश रुद्राः रुद्राद्वादश द्वादशादित्याः आदित्या एतावन्तः एतावन्तो वै वै देवाः देवास्तेभ्यः तेभ्य देवा एव यज्ञम् यज्ञम् प्राह राहौजः ओजोऽसि असि पितृर्भ्यः पितृभ्यस्वः पितृभ्य इति पितृर्भ्यः त्वापितॄन् पितृजिन्व जिन्वेति इत्याह आहदेवान् देवानेव एव पितॄन् पितॄनो अनसम् सन्तनोति तनोति तन्तुः तन्तुरसि असि प्रजाभ्यः प्रजाभ्यस्त्वा प्रजाभ्य इति प्राजाभ्यः त्वाप्रजाः प्रजा जिन्व प्रजा इति इत्याह आहपितॄन् पितॄनेव एव प्रजाः प्रजा अनु प्रजा इति प्राजाः अनुसम् सन्तनोति तनोति कृतनाशाट् कृतनाशाडसि असि पशुभ्यः पशुभ्यस्त्वा पशुभ्य इति पशुभ्यः त्वापशून् एव प्रजा इति प्राजाः एव पशून् पशूननु अनुसम् सन्तनोति ेवरसि अस्य औषधीभ्यः ओषधेभ्यस्त्वा औषधेभ्य इत्यौषधेभ्यः त्वौषधीः ओषधीर्जिन्व जिन्वेति इत्याह आहौषधीषु ओषधीष्वेव एव पशून् पशून् प्रति प्रतिष्ठापयति स्थापयत्यभिजित् अभिजिदसि अभिजिदित्यभिजित् असि युक्तग्रावा युक्तग्रावेन्द्राय युक्तग्रावेति युक्ताय ग्रावाः इन्द्राय त्वा त्वेन्द्रम् इन्द्रम् जिन्वा जिन्वेति इत्याह आहाभिजित्यै अभिजित्या अभिजित्या इत्यभिजिज्ञैः अधिपतिरसि अधिपतिरित्यधिपतिः असि प्राणाय प्राणाय त्वा प्राणायति प्राणाय त्वा प्राणम् प्राणम् जिन्वा प्राणविधिप्राणम् जिन्वेति इत्याह आहप्रजासु प्रजास्वेव प्रजास्विति प्राजासु एव प्राणान् प्राणान् दधाति प्राणानि प्राणान् प्रभजति प्रेवृत् असि प्रवृत् प्रभृजसि प्रभजति प्रवृत् असीति इत्याह आह मिथनत्वाय मिथुनत्वाय सगं रोहः व्यथनत्वाय इति मिथुनात्वाय सगं रोहोऽसि इति संरोहः असि निरोहः निरोहोऽसि निरोह इति निहिरोहः असीति इत्याह आह प्रजाद्यै प्रजात्यैव सुखः प्रजा असुकोऽसि असि वेषश्रिः वेषश्रिरसि वेषश्रीरिति वेषाश्रिः असि वस्यष्टिः वस्यष्टिरसि असीति इत्याह आह प्रतिष्ठित्यै प्रतिष्ठित्या इति प्रतिष्ठित्यै अग्निना देवेन देवेन प्रतमाः पृतना जयामि जयामि रायत्रेण गायत्रेण छन्दसा छन्दसा रथन्तरेण साम्ना तथन्तरेणेति रथन्तरेण साम्ना विषत्कारेण षट्कारेण वज्रेण सषत्कारेणेति वृषकारेण वज्रेण पौर्वजान् पूर्वजान् भ्रातृव्यान् पूर्वजाति पौर्वजान् भ्रातृव्यान् अधरान् अधरान् वादयामि पादयाम्यव अवयीनान् एनान् बाधे बाधे प्रति प्रत्येनान् एनाम् नृदे हृदेऽस्मिन् अस्मिन् क्षये क्षयेऽस्मिन् अस्मिन्भूमिलोके भूमिलोकेयः भूमिलोके इति भूमिलोके योऽस्मान् अस्मान् वेष्टि वेष्टियम् यम् च वयम् वयम् ऋष्मः ऋष्मो विष्णोः विष्णोः क्रमेण क्रमेणाति अत्येनान् एनाम् ग्रामामि ग्रामामिन्द्रेण इन्द्रेण देवेन देवेन पृतनाः पृतना यामि त्रैष्टुभेन त्रैष्टुभेन छन्दसा छन्दसा पञ्चदशेन पञ्चदशेन पञ्चदशेनेति पञ्चादशेन स्तोमेन बृहदा बृहता साम्नाः साम्ना विषत्कारेण रिषत्कारेण वज्रेण रिषत्कारेणेति विषत्कारेण वज्रेण सहजान् सहजान् विश्वेभिः सहजानिति सहजान् विश्वेभिर्देवेभिः देवेभिः पृतनाः पृतना दयामि दयामि जागतेन जागतेन छन्दसा छन्दसा सप्तदशेन सप्तदशेन स्तोमेन सप्तदशेनेति सप्तादशेन स्तोमेन वामदेव्येन रामदेव्येन साम्नाः रामदेव्येनेति वामादेव्येन साम्नाषत्कारेण वषत्कारेण वज्रेण वषट्वारेण च वषटेवारेण वज्रेणापराजान् अपरजान्द्रेण अपराजानीत्यपराजान् इन्द्रेण सयुजः सयुजो वयम् इति सायुजः वयकम् सा सह्याम सा सह्याम पृतन्यतः पृथन्यत इति पृथन्यतः घ्नन्तो वृत्राणि तत्राण्यप्रति प्रतीत्यप्रति यत्तेः ते अग्ने अग्ने तेजः तेजस्तेन अहम् तेजस्वी तेजस्वी भूयासम् भूयासञ्जत् यत्तेरग्ने अग्ने वर्चः वर्चस्तेन तेनाहम् अहं वर्चस्वी वर्चस्वी भूयासम् भूयासञ्जत् यत्तेः ते अग्ने अग्नेहरः हरस्तेन तेनाहम् अहं हरस्वी हरस्वी भूयासम् भूयासमिति भूयासम् ये देवाः देवा यज्ञहनः यज्ञहनो यज्ञमुषः यज्ञहन यज्ञहनः यज्ञमुषः पृथिव्याम् यज्ञमुष इति यज्ञांशः पृथिव्यामधि अभ्यासते आसद इत्यासते अज्ञर्मा मातेभ्यः तेभ्यो रक्षतु रक्षतु वक्षेम यक्षेम सुकृतः सुकृतः वयमिति भजम् आगन्म अगन्ममित्रावरुणा मित्रावर्णावरेण्या मित्रावृणेति मित्रावृणाः अरेण्या रात्रीणाम् रात्रीणाम् भागः भागो युवयोः युवयोर्यः यो अस्ति अस्तीत्यस्ति नागम् गृह्णालाः गृह्णालाः सुकृतस्य सुकृतस्य लोके सुकृतस्येति सुकृतस्य लोके तृतीये तृतीये पृष्ठे पृष्ठे अभि अभिलोचने लोचने दिवः दिव इति दिवः ये देवाः देवायज्ञहनः यज्ञहनो यज्ञंशः यज्ञः नैरि यज्ञहनः यज्ञंशोऽन्तरिक्षे यज्ञंशै यज्ञांशः अन्तरिक्षेधि रध्यासते आसत इत्यासते वायुर्मा मातेभ्यः तेभ्यो रक्षतु रक्षतु गच्छेम गच्छेम सुकृतः सुकृतो भजम् सुकृत इति सुकृतः भजमिति भुजम् यास्ते ते रात्रीः रात्रीः सवितः सवितर्देवजानीः एवजानीरन्तरा एवयानीरिति देवाजानीः अन्तरा द्यावापृथिवी द्यावापृथिवी विजन्ती द्यावापृथिवी इति द्यावापृथिवी यजन्तीति बीजन्ति ग्रहैश्च स सर्वैः सर्वैः प्रजयाः रजयानु प्रजयेति प्राजया न अग्रे सुवः सुबो रुहाणाः रुहाणास्तरत तरता रजागुंसि रजागुंसि ये देवाः देवायज्ञानः यज्ञहनो यज्ञंशः यज्ञहन इति यज्ञाहनः यज्ञमुषो अध्यासते आसद इत्यासते सूर्यो मा मातेभ्यः तेभ्यो रक्षतु रक्षतु गक्षेम गच्छेम सुकृतः सुकृतो वयम् सुकृतः वजमिति वयम् एनेन्द्राय इन्द्राय समभरः समभरः प्रयागुंसि समभर इति समभरः विषा जातवेदः जातवेद इति जाता वेदः तेनाग्ने अग्ने त्वम् त्वमुद उदवर्धय वर्धयेमम्स जातानाम् स जातानाविश्रैष्ठ्ये स जातानामिति स जातानाम् श्रैष्ठ्या आधेः देह्येनम् एनमित्येनम् यज्ञः नो वै देवायज्ञमुषः यज्ञमुषः सन्ति यज्ञमुष इति यज्ञामुषः सन्ति ते त एषु एषु लोकेषु लोकेश्वासते आस आददानाः आददाना विमथ्नानाः आददाना इत्याददानाः विमथ्नानायः विमथ्नाना इति विमथ्नाः यो ददाति ददाति यः यजते यजते तस्य तस्येजि ये देवाः देवायज्ञहानः यज्ञहनः पृथिव्याम् द्ण्यान यज्ञः नैति यज्ञहनः पृथिव्यामधि अभ्यासते ये ये अन्तरिक्षे अन्तरिक्षे ये ये दिवि दिवीति इत्याह आहेमान् इमानेव एव लोकान् लोकाग्स्तीर्त्वा तीर्त्वा सगृहः सगृहः सपशुः इति सा गृहः सपशुः सुवर्गम् सपशुरिति सा पशुः स्वर्गम् लोकमेति एत्यत अपवै वै सोमेन सोमेन य जानाद् विजानाद्देवताः देवताश्च स यज्ञः यज्ञश्च चक्रामन्ति क्रामन्त्यज्ञेयम् आग्नेयम् पञ्चकपालम् पञ्चकपालमुदवसानीयम् पञ्चकपालमितिपञ्चकपालम् उदवसानीयग्निः उदवसानीयमित्युत् अवसानीयम् निर्वपेद् अपेदग्निः अग्निः सर्वाः सर्वादेवताः देवताः पाङ्क्तः पाङ्क्तो यज्ञः यज्ञो देवतावाः देवतावाश्च चैव एव यज्ञम् यज्ञम् चाव अवरुन्धे रुन्धे गायत्रः गायत्रो वै त्वा अग्निः अग्निर्गायत्र छन्दाः गायत्र छन्दास्तम् गायत्रच्छन्दा इति गायत्रा छन्दाः तन् छन्दसा छन्दसा वि व्यर्थयति अर्धयति यत् यत्पञ्चकपालम् पञ्चकपालम् करोति पञ्चकपालमिति पञ्चाकपालम् करोत्यष्टाकपालः अष्टाकपालः कार्यः अष्टाकपाल इत्यष्टागपालः काव्योऽष्टाक्षरा अष्टाक्षरा गायत्री अष्टाक्षरत्यष्टा अक्षराः गायत्री गायत्रः गायत्रोऽग्निः अग्निर्गायत्र छन्दाः गायत्र छन्दाः स्वेन गायत्रछन्दा स्वेनैव एवैनम् एनम् छन्दसा छन्दसा सम् समर्धयति अर्धयति पङ्क्त्यौ भवतः याज्यानुवाक्ये इति याज्यानुवाक्ये भवतः पान्तः पान्तो यज्ञः यज्ञस्तेन तेनैव एव यज्ञात् यज्ञान्न नैति एतीत्येति सूर्यो मा, मा देवः देवो देवेभ्यः देवेभ्यः देवे पातु पातु वायुः वायुरन्तरिक्षात् अन्तरिक्षाद्यजमानः यजमानोऽग्निः मग्निर्मा मा पातु पातु चक्षुषः चक्षुष इति चक्षुषः सर्क्षशूष शूष सवितः सवितर्विश्वदर्षणे विश्वचर्षण एतेभिः विश्वजर्षण इति विश्वाचर्षणे एतेभिः सोम सोमनामभिः नामभिर्विधेम नामभिरितिनामाभिः विधेमते एतेभिः तेभिः सोम त इति ते अहम् परस्ताहात् परस्तादहम् अवस्ताद अवस्तादहम् अहम् ज्योतिषा ज्योतिषाभि वितमः तमोववार अपवारेति दिववारा यदन्तरिक्षम् अन्तरिक्षम् तत् तदुमे मे पिता पिता भूत् अभूदहम् अहकम् सूर्यम् सूर्यमुभयतः उभयतो ददर्श ददर्शाहम् अहम् भूयासम् भूयासमुत्तमः उत्तमः समानानाहम् उत्तम इत्युत्तमः समाना नामा आसमुद्रात् समुद्रादा आन्तरिक्षात् अन्तरिक्षात् प्रजापतिः प्रजापतिरुदधिम् प्रजापतिरिति प्रजापतिः उदधिमित्यदाधिम् श्रावयातीन्दः इन्द्रः प्रस्नौतु स्नौतु मरुतः मरुतो वर्षयन्तु वर्षयन्तूत् उन्नम्भय नम्भय पृथिवीम् पृथिवीम् भिन्धि भिन्धि इदम् इदम् दिव्यम् दिव्यन्नभः नभयदिनभः उद्मो दिव्यस्य दिव्यस्य नः नो देहि देहीशानः ईशानो विसृज सृजाकृतिम्ति धृतिम् पशवो वि वा एते एते यत् यदादित्यः आदित्य एषः एष रुद्रः रुद्रो यत् यदग्निः अग्निरोषधीः ओषधीः प्रास्य प्रास्याग्नौ प्रास्येति प्रास्य अग्नामादित्यम् आदित्यम् जहोति जहोति रुद्रात् रुद्रादेव एव पशून् पशूनन्तः अन्तर्दधाति अधात्यथोः अथो ओषधीषु अथोरित्यथोः ओषधीष्वेव एव पशून् पशून् प्रति प्रतिष्ठापयति स्थापयति कविः कविर्यज्ञस्य यज्ञस्य वितनोति तनोति पन्थानाम् पन्थान्नागस्य नागस्य पृष्ठे पृष्ठे अधि अधिरोचने रोचने दिवः दिव इति दिवः येन हव्यम् हव्यम् वहसि वहसि यासि यासि दूतः दूत इतः प्रजेताः प्रजेता अमुदः प्रजेता इति प्राचेताः अमुदः सनीयान् यास्ते ते विश्वाः विश्वाः समिधः समिधः सन्ति समिध इति समिधः सन्त्यग्ने अग्नेयाः याः पृथिव्याम् तास्ते ते गच्छन्तु गच्छन्त्वाहुतिम् आहुतिम् घृतस्य आहुतिमित्याहुतिम् घृतस्य देवायते देवायते यजमानाय देवायत इति देवायते यजमानाय शर्म शर्मेति शर्म आशासानसुवीर्यम् आशासान इत्याशासानः सुवीर्यगम् राजः सुवीर्यमिति सुवीर्यम् राजस्पोषम् पोषग्स्वश्रियम् स्वश्रियमिति सुवश्रियम् बृहस्पतिनाराय राजाः सुगाकृतः सुगाकृतो मह्यम् सुगाकृतगिः सुराकृतः मह्यम् यजमानाय यजमानाय तिष्ठ तिष्ठेति तिष्ठ सन्त्वा त्वा पयसा पयसा घृतेन घृतेन सम् सन्त्वा त्वा नश्यामि नश्याम्यपः अप ओषधीभिः ओषधीभिरित्योषधीभिः सन्त्वा त्वा त्वा त्वा त्वा त्वानश्यामि नश्यामि प्रजया प्रजयाहम् रजयेति अहमद्य रजसा सादीक्षिता ईक्षिता सनवः सनवो वाचमस्मे अस्मे इत्यस्मे प्रैतु ए तु ब्रह्मणः ब्रह्मणस्पत्नीः पत्नीवेदिम् पत्नी वेदिम् वर्णेन वे वर्णेन सीदतु सीदत्विति सीदतु अथाहम् अहमनुकामिनीः अनुकामिनी स्वे अनुकामिनीत्यनुकामिनीः स्वे लोके लोके विषय विषा इह इहेतिह सुप्रजसस्त्वा सुप्रजस इति सुप्रजसः अयकम् सुपत्नीः सुपत्नीरुप सुपत्नीरितिसुपत्नीः उपसेदिमा सेदिमेति सेदिमा अर्धे सपद्मदम्भनम् सपद्नदम्भनमदर्धासह सपत्नदम्भनमिति अदर्धासो अदाभ्यम् अदा आभ्यमित्यदा आभ्यम् विश्यामि स्यामि वरुणस्य वरुणस्य पाशम् पाशञयम् यमबध्नीत अबध्नीतसविता सविता सुकेतः सुकेत इति सुकेतः धातुश्च च योनौ सुकृतस्य सुकृतस्य लोके सुकृतस्येति सुकृतस्य लोके स्योनम् स्योनम् मे सह सः प्रत्याह प्रत्याकरोमि करोमीति करोमि रेहि यह्युदेहि उदेह्युतस्य बुदेहि इत्युतरेहि तदस्य वामीः अन्वग्निः अग्निस्ते तेऽग्रम् अग्रन्नयतु अयत्वदितिः अदितिर्मध्यम् मध्यम् ददताम् ददता रुद्रावसृष्टा रुद्रावसृष्टासि रुद्रावसृष्टेति रुद्रा अवसृष्टाः असि वा विवा नाम ना मामाहिगुंसीः हिगुंसीर्वसुभ्यः वसुभ्यो रुद्रेभ्यः वसुभ्य इति वसुभ्यः रुद्रेभ्यः ओ देवेभ्यः देवेभ्यः पन्ने जनीः जनी जनी पन्ने जनीर्गृह्णामि पन्ने जनीरिति पदने जनीः गृह्णामि यज्ञाय यज्ञायवः विश्वस्य विश्वस्य ते ते विश्वावतो वृष्णियावतः विश्वापत इति विश्वावतः वृष्णियापतस्तवः विश्वा वृष्णियापत विश्वा इति वृष्णियापतः वाग्ने अग्ने वामीः वामीरनु अनुसन्दृशि सन्दृशि विश्वाः सन्दृशीति सन्दृशि विश्वा वेतागुंसि वेतागुंसि धिषीया धिषीयागन् अगन् देवान् देवान् यज्ञः यज्ञोनि निदेवीः देवीर्देवेभ्यः देवेभ्यो दे यज्ञम् यज्ञमशिषन् अशिषन्नस्मिन् अस्मिन् अस्मिन, संवति सन्द्र यजमाने यजमानः आशिषः आशिषस्वाहाकृताः आशिष इत्या आशिषः स्वाहाकृताः समुद्रेष्ठाः स्वाहाकृता स्वाहा आकृताः समुद्रेष्ठा गन्धर्वम् समुद्रेष्ठा इति समुद्रे स्थाः अन्धर्वमा आतिष्ठत तिष्ठता नो अन्विनो पातस्य पद्मन् पत्मन्निडः इड ईडिताः ईडिता ईडिताः वषट्कारो वै वषट्कार इति वषट्कारः वै गायत्र्यै गायत्र्यै शिरः शिरो अच्छिनत् दक्षिणत्तस्यै तस्यैरसः रसः परा परापतत् अपतत्सः सपृथिवीम् पृथिवीम् प्राविशत् अविशत्सः सरखदिरः खलिलोऽभवत् अघवद्यस्य यस्य खादिरः खादिरः स्रुवः स्रुवो भवति भवति छन्दसाम् छन्दसामेव एव रसेन रसेना वा अपद्यति सरसाः सरसा सरसा इति सारसाः अस्याहुतयः आहुतयो आहुतय इत्याहुतयः स्याम् तर्ययस्यामितः इतो दिवि दिवि सोमः सोम आसीत् आसीत्तम् गङ्गायत्री गायत्र्या आहरत् तस्य पर्णम् पर्णमच्छिद्यत अच्छिद्यत तत् तत्पर्णः पर्णस्य पर्णत्वम् पर्णत्वम् यस्य पर्णत्वमिति पर्णत्वम् यस्य पर्णमयीः पर्णवयीति पर्णामयी जिहोर्भवति भवति सौम्याः सौम्या अस्य अस्याहुतयः आहुतयो भवन्ति आहुतय इत्याहुतयः भवन्ति जिषन्ते युषन्ते यस्य अस्य देवाः देवा आहुतीः आहुतेर्देवाः आहुतिरित्याहुतिः देवा वै वै ब्रह्मन् ब्रह्मन् अवदन्त अवदन्त तत् तत्पर्णः पर्ण उपाशृणोत् अशृणोत्सुश्रवाः शुश्रवा वै शुश्रवा इति शुश्रवाः वै नाम नामजस्य यस्य पर्णमयी पर्णमजीजुः पर्णमयीति पर्णामजी ऋहुर्भवति भवति न पापम् पापग्रश्लोकम् श्लोकम् शृणोति शृणोति ब्रह्म ब्रह्म वै वै प्रर्णः पर्णो विड् मिण्मरुतः मरुतोऽन्नम् मारुतो अश्वत्थः अश्वत्थो यस्य यस्य पर्णमयैः पर्णमयी जुहोः पर्णमयीति पर्णामैः जुहुर्भवति अभत्याश्वत्थी आश्वत्थ्युपभृत् उपभृद्ब्रह्मणा उपभृदित्युपभृद् ब्रह्मणैव एवान्नम् अन्नमव अपरुन्धे रुन्धेतोः अथो ब्रह्म अथो वित्यथोः ब्रह्मैव एवविषि विष्यधि अध्यूहति ऊहति राष्ट्रम् राष्ट्रम् वै वै पर्णः पर्णोबिडविडश्वत्थः अश्वत्थो यद् यत्पर्णमयैः पर्णमयीजुहोः पर्णमयीति पर्णामयी जुहोर्भवति भवत्याश्वी आश्वत्थ्युपभृत् उपभृद्राष्ट्रम् उपभृदित्युपभृत् राष्ट्रमेव एव हि विश्यति अध्यूहति ऊहति प्रजापतिः प्रजापतिर्वै प्रजापतिरिप्रजाः वा अजुहोद् अजुहोत्सा सा यत्र यत्राहुतिः आहुतिः प्रत्यतिष्ठत् आहुदित्याहुतिः प्रत्यतिष्ठत्ततः प्रत्यतिष्ठदिति प्रति ततो विकङ्कतः विकङ्कत उत् इति वीकङ्कतः उदतिष्ठत् अतिष्ठत्रतः ततः प्रजाः प्रजा अर्धजला प्रजा इति प्राजाः अर्जलयस्य यस्य वैकङ्कती वैकङ्कती ध्रुवा भवति भवति प्रति प्रत्येव एवास्य अस्याहुदयः आहुदयस्तिष्ठन्ति आहुदय इत्याहृदयः तिष्ठम् त्यथोः अथोप्र अथो इत्यथोः प्रयव एव जायते जायत एतत् एतद्वै वै सृजाम् सृजागं रूपम् रूपम् यस्य यस्यैवकंरूपाः एवकंरूपाः सृजः एवगंरूपा एवं रूपाः सृजौ भवन्ति भवन्ति सर्वाणि सर्वाण्येव एवैनम् एनकम् रूपाणि रूपाणि पशूनाम् पशूनामुप उपतिष्ठन्ते तिष्ठन्ते नस्य अस्यापरूपम् अस्या अपरूपमात्मन् अपरूपमित्यपारूपम् आत्मम् जायते जायत इति जायते उपयामगृहीतोऽसि उपयामगृहीत इत्युपयामागृहीतः असिर्प्रजापतये प्रजापतये त्वा प्रजापतये प्रजापतेः ताज्ज्योतिष्मदे ज्योतिष्मदे ज्योतिष्मन्द्रम् ज्योतिष्मन्दम् गृह्णामि गृह्णामि दक्षाय दक्षाय दक्षवृधेः दक्षवृधे रातम् दक्षवृधैति दक्षावृधेः रातम् देवेभ्यः देवेभ्योऽग्निजिह्वेभ्यः अग्निजिह्वेभ्यस्त्वा अग्निजिह्वेभ्यैत्यग्निजिह्ेभ्यः त्वताजुभ्यः कृतायुभ्यैन्द्रज्येष्ठेभ्यः कृताजिभ्यै त्रिताजुभ्यः इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः इन्द्रज्येष्ठेभ्यैति इन्द्रज्येष्ठेभ्यः वरुणराजभ्यो वाताभिभ्यः वरुणराजभ्येति वरुणराजाभ्यः वाताभिभ्यः पर्जन्यात्मभ्यः वाताभिभ्यैति वातापीभ्यः पर्जन्यात्मभ्यो द्वे पर्जन्यात्मभ्यैति पर्जन्यात्माभ्यः द्वे त्वान्तरिक्षाय अन्तरिक्षाय त्वा त्वापृथिव्यै पृथिव्यै त्वा त्वाप अपेयेन्द्र इन्द्रद्विषतः इषतो मनः मनोप अपजिज्यासतः ज्यासतोजिः गह्यप योनः नोरातीयति अरातीयति तम् तञ्जि त्रिः प्राणाय प्राणायत्वा प्राणायति प्राणाय त्वापानाय अपानायत्वा अपानायेत्यपानाय त्वाव्यानाय व्यानायत्वा ज्यानायति विहनाय त्वासते सते त्वा त्वासते असते त्वा अद्भ्यस्त्वाः अद्भ्यैत्यतेभ्यः ओषधीभ्यः ओषधीभ्यो विश्वेभ्यः ओषधीभ्येत्यौषधीभ्यः विश्वेभ्यस्त्वा त्वाभूतेभ्यः भूतेभ्यो यतः यतः प्रजाः प्रजाक्षिद्राः प्रजा इति प्राजाः अक्षिद्रा अजायन्द अजायन्द तस्मै तस्मै त्वा त्वा प्रजापतये प्रजापतयेऽपि भूतापन्ने प्रजापतये इति प्रजापतये विभूतावन्ने ज्योतिष्मते विभूतावन् इति विभूतावन्ने ज्योतिष्मते ज्योतिष्मन्तम् ज्योतिष्वन्तम् जुहोमि जुहोमीति जुहोमि याम् वै यजमानश्च स देवतामन्तरितः अन्तरितस्तस्यै अन्तरित इतः तस्या आवृष्ट्येते दृष्ट्येते प्राजापत्यम् दृष्ट्येते इति वृष्ट्येते प्राजापत्यम् दधिग्रहम् प्राजापत्यमिति प्राजापत्यम् तधिग्रहम् गृह्णीयात् तधिग्रहमिति दधि ग्रहम् गृह्णीयात् प्रजापतिः प्रजापतिः सर्वाः प्रजापतिरिजप्रजापतिः सर्वा देवताः देवता देवताभ्यः देवताभ्य ज्येष्ठः धुवाधेरिह्नुवाते ज्येष्ठो वै वा एषः एष यस्यैषः एष गृह्यते गृह्यते ज्यैष्ठ्यम् ज्यैष्ठ्यमेव एव गच्छति गच्छति सर्वासाम् सर्वासाम् वै वा एतत् एतद्देवतानाम् देवतानामम् देवता रूपम् रूपत् यदेशः यत, एष ग्रहः प्रहो यस्य यस्यैषः एष गृह्यते गृह्यते सर्वाणि सर्वाण्येव एवैनम् एवम् रूपाणि रूपाणि पशूनाम् पशूनामुप उपतिष्ठन्ते तिष्ठन्त उपयामगृहीतः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयामा गृहीतः असि प्रजापतये प्रजापतये त्वा प्रधापतये इति प्रधापतये त्वा ज्योतिष्पदे ज्योतिष्पदे ज्योतिष्वन्तम् ज्योतिष्मन्तम् गृह्णामि गृह्णामीति इत्याह आह ज्योतिः ज्योतिरेव केनकम् समानानाम् समानानाम् करोति करोत्यग्निजिह्वेभ्यः अग्निजिह्वेभ्यस्त्वा अग्निजिह्वेभ्यैत्यग्निजिह्वेभ्यः त्वत्ताजुभ्यः कृताजुभ्यैति कृताजुभ्यै त्रिताजुभ्यः इत्याह आहैतावतीः एतावतीर्वै वै देवताः देवतास्ताभ्यः ताभ्य एव एरैनुनकम् सर्वाभ्यः सर्वाभ्यो गृह्णाति गृह्णात्यप अपेन्द्र इन्द्रद्विषतः इषतो मनः मन इति इत्याह आह भ्रातृव्यापनत्ती भ्रातृव्यापनत्ती प्राणाय भ्रातृव्यापनुत्या इति प्राणायत्वा प्राणायति प्राणायपानाय अपानायत्वा अपानायत्यपानाय त्वेति इत्याह आह प्राणान् प्राणानेव प्राणानिति एव यजमाने यजमाने दधाति दधाति तस्मै त्वा त्वा प्रजापतये प्रजापतये विभूदावन्ने प्रजापतये इति प्रजापतये विभूदावन्ने ज्योतिष्मदे विभूदावह् इति विभूतावन्ने ज्योतिष्मदे ज्योतिष्वन्दम् ज्योतिष्मन्दम् ज्युहोमि जुहोमीति इत्याह आह प्रजापतिः प्रजापतिः सर्वाः प्रजापतिरिति प्रजापतिः सर्वा देवताः देवताः सर्वाभ्यः एवैनम् एनम् देवताभ्यः देवताभ्यो जुहोति विभोत्याज्यग्रहम् आद्यङ्ग्रहम् गृह्णीयात् आद्यग्रहमित्याज्य आद। गृहम् गृह्णीयात् तेजस्कामस्य तेजस्कामस्य ते तेजः तेजस्कामस्येति ते कामस्य तेजो ते वा आज्यम् आद्यम् तेजस्वी ते तेजस्वेव ते एव भवति भवति सोमग्रहम् सोमग्रहम् गृह्णीयात् सोमग्रहमिति सोमाग्रहम् गृह्णीयात् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसकामस्य ब्रह्मवर्चसम् ब्रह्मवर्चसकामस्येति ब्रह्मवर्चस कामस्य ब्रह्मवर्चसं वै ब्रह्मवर्चसमिति ब्रह्मवर्चसम् वै सोमः सोमो ब्रह्मवर्चसी ब्रह्मवर्चस्येव ब्रह्मवर्चसीति ब्रह्म वर्तसी एव भवति भवति दधिग्रहम् अधिग्रहम् गृह्णीयात् दधिग्रहमिति दधि ग्रहम् गृह्णीयात् पशुरामस्य पृशुरामस्योर्क् पशुरामस्येति पशुग्रामस्य ऊर्घ्वै वै दधि दध्यूर्ग् ऊर्पशवः पशव ऊर्जा ऊर्जैव एवास्मै अस्मा ऊर्जम् ऊर्जम् पशूर् पशूरव अवगृन्धे वृन्ध इति अपि वृञ्जन्ति वृञ्जन्ति विश्वे विश्वे द्विः द्विर्यत् यदेते एते त्रिः त्रिर्भवन्ति भवन्त्यूमाः उमा स्वादीयस्वादुनाः स्� स्वादुना सृज सृजसम् समतः अत उ ऊषु सुमधु मधु मधुना मधुनाभि अभियोधि योधीति योधि उपयामगृहीतोऽसि उपयामगृहीत इत्युपयामागृहीतः असि प्रजापतये प्रजापतये त्वा प्रजापतयैति प्रजापतये त्वादुष्टम् दुष्टम् गृह्णामि गृह्णाम्येषः एष ते ते योनिः योनिः प्रजापतये प्रजापतये त्वा प्रजापतयैति प्रजापतये स्वेदित्वा प्राणग्रहान् गृह्णाति प्राणग्रहानिति प्राणाग्रहान् गृह्णात्येतावत् एतावद्वै वा असि अस्ति यावत् यावदेते एते ग्रहाः ग्रहाः स्तोमाः स्तोमाश्चन्दागुंसि छन्दागुंसि पृष्ठानि पृष्ठानि दिशः दिशो यावत् यावदेव एवास्ति तदव अवरुन्धे रुन्धे ज्येष्ठाः वै वा एतान् एतान् ब्राह्मणाः ब्राह्मणाः पुरा पुरा विदाम् विदामक्रन् अक्रन्दस्मात् तस्मात् तेषाम् तेषाम् सर्वाः सर्वादिशः दिशोऽभीताः अभिजिता भूवन् अभिजिता इत्यभिजिताः अभूवन् यस्य यस्यैते एते गृह्यन्ते गृह्यन्ते ज्यैष्ठ्यम् ज्यैष्ठ्यमेव एव गच्छति गच्छत्यभि अभिदिशः दिशो जयति पञ्च गृह्यन्ते पञ्च पञ्चदिशः दिशः सर्वासु सर्वास्वेव एव दिक्षु दिक्षु वृद्ध्मन्ति वृद्धुवन्ति नव नव नव नव गृह्यन्ते पुरुषे प्राणाः प्राणाः प्राणान् प्राणा प्राणानेव प्राणानिति प्राणान् यजमानेषु दधति दधति प्रायणीये राजनीये च प्राजनीय इति प्राजनीय चोदयनीये उदयनीये च उदयनीय इत्युदनीय च दृश्यन्ते दृश्यन्ते प्राणाः प्राणाभिः प्राणा इति प्राणाः ययि प्राणग्रहाः प्राणग्रहाः प्राणैः प्राणग्रहा इति प्राणाग्रहाः प्राणैरेव प्राणैरति प्राणैः एव प्रयन्ति प्रयन्ति प्राणैः प्रयन्तेति प्रायन्ते प्राणैरुत् प्राणैरति प्राणैः उद्यन्ति दशमे दशमेहन् अहम् गृह्यन्ते प्राणाः प्राणा प्राणा इति प्राणाः वै प्राणग्रहाः प्राणेभ्यः प्राणग्रहा इति प्राणाग्रहाः प्राणेभ्यः खलु प्राणेभ्य इति प्राणेभ्यः खलु वै वा एतत् एतत्प्रजाः प्रजायन्ति प्रजा इति प्राजाः यन्ति यत् यद्वामदेव्यम् वामदेव्यम् वामदेव्यमिति वामादेव्यम् योनेश्च्यवदे च्यबते दशमे दशमे हन् अहन् वामदेव्यम् वामदेव्यम् योनेः वामदेव्यमिति वामादेव्यम् योनिनेश्च्यवदे च्यबते यद्दशमे दशमे हन् अहम् दृह्यन्ते ये दृह्यन्ते प्राणेभ्य एव प्राणेभ्य इति प्राणेभ्यः एव तत् तत्प्रजाः प्रजान प्रजा इति प्रदेवम् देवम् देव्या देव्या धिया धिया भरत भरता, भरता जातवेदसम् जातवेदसमिति धाता वेदसम् अव्यानः नो वक्षत् वक्षतानुषक् आनुषग इत्यानुषक् अयमो ऊष्यः स्यप्रदेवयुः देवयुर्होताः देवयुरिति होता यज्ञाय यज्ञाय नीयते इति नीयते रथो नयोः योरभीवृतः अभीवृतो घृणीवान् अभीवृत इत्यभीवृतः घृणीवान् चेदति चेततित्मनात्मनेतित्मना अयमग्निः अग्निपरुष्यति वृष्यत्यमृतात् अमृतादिव इव जन्मनः जन्मन इति जन्मनः सह सश्चित् चित्सहीयान् सहीयान्देवः देवो जीवातपे जीवातपे कृतः कृत इति कृतः इडायास्त्वापदे पदे भजम् गजन्नाभाः नाभा पृथिव्याः पृथिव्याधि अधीतिः जातवेदोनि जातवेद इति जातावेदः इति धीमहि धीमहे ज्ञेये अग्ने हव्याय हव्याय वोढवे वोढव इति वोढवे अग्ने विश्वेभिः विश्वेभिः स्वनीक स्वनीकदेवैः स्वनीकेतिसो अनीक देवैरूर्णावन्दम् दे ऊर्णावन्दम् प्रथमः ऊर्णावन्दमित्यूर्णा आवन्दम् प्रथमः सीद सीदयोनिम् योऽनिमितियोनिम् कुलायिनम् घृतवन्तम् घृतवन्तकम् सवित्रे घृतवन्तमिति घृतावन्तम् सवित्रे यज्ञम् यज्ञन्नयजमानाय यजमानाय साधु साध्विति साधु सीदहोदः होदस्वे स्वौ लोके लोके चिकित्वान् चिकित्वान् साधय साधया यज्ञम् यज्ञकम् सुकृतस्य सुकृतस्य योनौ सुकृतस्येति सुकृतस्य यो नाविदियोनोः देवाभिर्देवान् देवावीरिति देवावीः देवान् हविषा हविषा अग्ने बृहत् बृहद्यजमाने यजमाने वयः वजोधाः धा निहोताः होता होदृशदने होदृशदने विदानः होदृशदन इति होदृसदने विदानस्त्वेषः त्वेषो दीदिवान् दीदिवागुम् असदत् असदत् अगब्धव्रतप्रमतिर्वसिष्ठः अगब्धव्रतप्रवचरित्यदब्धव्रतप्रमतिः वसिष्ठः सहस्रम्भरः सहस्रम्भरः शृचिजिह्वः सहस्रम्भर इति भरः सृजिलिह्वो अग्निः शृजिलिह्व इति शुचिजिह्वः अग्निरित्यग्निः त्वम् दूतः दूतस्त्वम् त्वमो पुनः नःपरस्पाः परस्पास्त्वम् परस्पा इति परः पाः त्वम् वस्यः वस्याः आवृषभ वृषभप्रणेता प्रणेतेति पद्मे त्वकस्य त्वकस्य नः न स्तनेः तने तनूनाम् तनूनामप्रयुच्छन् अप्रयुञ्छन् दीद्यद् अप्रयुच्छन् इत्यप्रायच्छन् अप्रयुच्छन वीद्यद्बोधि बोधिगोपाः गोपादिगोपाः अभित्वाः त्वादेव देवसवितः सवितरीषालम् ईशालम् वार्याणाम् वार्याणामिति वार्याणाम् सदावन् अवन्भागम् भागमीमहे इमह इतीमहे मही द्यौः द्यौः पृथिवी च नः न इमम् इमम् यज्ञम् यज्ञम् निमिक्षतामिति विमिक्षताम् विभतान्नः मम भरीमभिः भरीमभिरिभरीमभिः त्वामग्ने अग्ने पुष्कराद् पुष्करादधि ल्यथर्व अथर्वाणिः इरमन्थत अमन्थतेत्यमन्थत मूर्ध्व विश्वस्य विश्वस्य बाघतः बाघत इति बाघतः तमो उक्त्वा पादध्यङ् दध्यङ्षिः ऋषिः पुत्रः पुत्र ईधे ईधे अथर्वणः अथर्वण इत्यथः वृत्रहणम् पुरन्दरम् वृत्रहणमिति वृत्रहनम् पुरन्दनमिति परन्दनम् अतो उक्त्वाथ्यः पाथ्यो वृषा वृषासम् समीधे ईधे दस्य हन्तम् दस्यो हन्तमम् धनञ्जयगम् रणेरणे धनञ्जयमिति धनम् जयम् रणेरण इति रणे रणे जन्तभुत् भवद उद, अग्निर्वृत्रः वृत्रः अजनि वृत्रहेतिवृत्राः अजनी इत्यजनि धनञ्जयो रणे रणे धनञ्जय जयः रणे रणेति रणे रणेः आयम् यगुम् हस्ते हस्तेन न खादिनम् खादिनघुम् शिशुम् शिशुम् जातम् न बिभ्रति बिभ्रतीति बिभ्रति विशामग्निम् दिस्वध्वरम् स्वध्वरमिति सु अध्वरम् प्रदेवम् देवम् देववीरये दे, देववीरये दे भररा एववीरये दे इति दे, देवावीतये दे, देवा दे, भररा दे दे। दे दे, वसुवित्तमम् वसुवितममिति वसुवितमम् आस्वे स्वे यो नौः यो नौ हि निषीदत् सीदत्विति सीदतु आजातम् जातम् जातवेदसि जातवेदसि प्रियम् प्रियकम् शिषिता शिशितातिथिम् अतिथिमित्यतिथिम् शिव आ गृहपतिम् गृहपतिमिति गृहपतिम् अग्निनाग्निः अग्निः सम् समिध्यते युध्यते कविः कविर्गृहपतिः गृहपतिर्युवा गृहपतिरिति गृहपतिः युवेति युवा अव्यजवाड्जिह्वास्यः अव्यवाडिति हव्यवाड्जुह्वास्य इति जुहुहास्यः प्रगम्हि यग्ने अग्ने अर्दिना अर्दिना विप्रः विप्रो विप्रेण सन् साम् सदा रतेति सता सखा सख्याः सख्या समिध्यसे सख्या, सख्या समिध्यस सम, इति संयुध्यसे तम् मर्जयन्त मर्जयन्त सुकृतम् सुकृतम् पुरोजावानम् सुकृतमिति सुकृतम् पुरोजावानमाजिषु पुरोजावानमिति पुरहायावानम् आजिष्वित्यादिषु स्वेषु क्षयेषु देवास्तानि तानि धर्माणि धर्माणि प्रथमानि प्रथमान्यासन् आसन्नित्यासन् ते हनाकम् आकम् महिमानः महिमानः सजन्ते सजन्ते यत्र पूर्वे साध्याः साध्याः सन्ति देवा, देवा इति देवाः ओ तृतीयकाण्डे पञ्चमः प्रश्नः समाप्तः